नमो नमः अद्यतनविषयाः विसर्गसन्धिः एतावता वयं स्वरसन्धिं वयं अच् सन्धिं दृष्टवन्तः अनन्तरं हल् सन्धिं वयं दृष्टवन्तः खलु hmm. इदानीं तृतीयविभागः अस्ति विसर्गसन्धिः नाम यत्र यत्र पदद्वयं संयुज्यते एकस्य पदस्य अन्ते विसर्गः अस्ति तत्र कीदृशविकारः भवति विकारः नाम परिवर्तनं कीदृशविकारः भवति इत्यस्मिन् विषये अधुना परिशीलयामः तर्हि वस्तुतः अच्सन्धौ हल्सन्धौ च साक्षात् पाणिनीयसूत्रव्यवस्थां वयं दृष्टवन्तः इदानीम् अत्र बहूनि सूत्राणि सन्ति इति कारणतः अत्र कश्चन महाबलेश्वरभट्टः एकं सुलभां व्यवस्थां ीचीनमस्ति यदि वयं मिलित्वा पठामः मध्ये चर्चां कुर्मः निश्चयेन वयं सर्वे अवगन्तुं शक्ष्यामः तर्हि नीतभगिनी आरम्भे कृपया पठतु जाह्नवी शिबिरस्य तस्य आवश्यकता अस्ति पठन्तु विसर्गसन्देह स्वरूप प्राणिनिनाः या पद्धतिः प्रदत्ता सा बहूनाम् कृते अतः सुखबोधाय श्रीश्वरभट्टः सूत्रपञ्चकम् विरचितवान् अत्र शब्दः अस्ति अत्र ओकारः अस्ति किमर्थम् इति इदानीं ज्ञास्यामः अस्तु निरञ्जनमहोदय सविसाची महोदय पुरूपम् विसर्गस्य स्थाने तकारः कुत्रचित् रेफः कुत्रचित् उकारः अपि च अवगतं वा विसर्गस्य स्थाने किं किं भवितुमर्हति संति सन्ति अस्तु अग्रे सविसाथि महोदय अग्रे यथा रामः तिष्ठति रामः तिष्ठति राम तिष्ठति अत्र विसर्गस्य स्थाने सकारः अस्तु अग्रे पि उदाहरणे कीदृशं कार्यं भवेत् इति निर्णयार्थं इति अधुना पश्येम एतत् सर्वं प्रायः पुनस्मरणं स्यात् अस्माकं कृते निरञ्जनमहोदय अग्रे पठतु कृपया विसर्गात् पूर्व पूर्वं आ, विसर्गाद पूर्वं, विसर्गाद अग्रे के पूर्वं के आ-ई-उ-� पूर्व स्वरा संभव आसर्गा पूर्व पूर्वं व्यञ्जनं न भवितुम् अर्हति अतः केवलं स्वराः सम्भवन्ति hmm. Ma, विसर्गात् पूर्वं के के वर्णाः सम्भवन्ति व्यञ्जनानि सम्भवन्ति वा hmm. केवलं स्वराः स्वराः सम्भवन्ति सर्वे स्वराः सर्वाणि व्यञ्जनानि च अत्र वर्गीय व्यञ्जनानि लिखितानि वर्गीयव्यञ्जनानि क ख एतत् विसर्गस्य अनन्तरं के के वर्णाः सम्भवन्ति सर्वे वर्णाः सम्भवितुम् अर्हन्ति सर्वे वर्णाः सर्वे वर्णाः अस्तु तर्हि वर्गीयव्यञ्जनानि कानि क ख ड लिखितानि उच्चारणार्थम् अकारः नास्ति चेत् काठिन्यम् अस्ति सर्वे स्वराः सर्वाणि व्यञ्जनानि च भवितुम् अर्हति इति लिखितवान् किमर्थम् केवलम् कानि इति सूचयितुं लिखितवान् स्वराः के इति ज्ञायन्ते अस्ति भोगि सि सर्वाणि व्यञ्जनानि गणद्वये व्यञ्जनानि व्यन्जन, केवलं विसर्गात् अग्रे गणद्वये विभक्तानि प्रथामगण प्रथमगणे प्रता, गन, एतत् वाक्यमस्ति नाम अवगतं व्यञ्जनानि केवलं विसर्गात् अग्रे अर्हन्ति तानि क ख च नामकरणं वर्णाः सन्ति वयं जानीमः कर्कषव्यञ्जनानि अत्र खर इति प्रत्याहारः अस्ति तत्र प्रत्येकं गणस्य प्रथमसदस्य द्वयम् अपि च स श ष इति अस्तु रघुवीर महोदय अग्रे द्वितीय गणः अथ अवशिष्ट सर्वाणि व्यञ्जनानि गन् ृदु या गणे न सन्ति तानि सर्वाणि द्वितीयगणे द्विती सन्ति इत्येव ज्ञातव्यम् स्पष्टमस्ति वा एतावता वयं प्रायः जानीमः तत्र हश् अपि अस्ति खर् अपि अस्ति इति गणद्वयं व्यञ्जनानां भागद्वयमस्ति तत्रि अग्रि नीताभगनि वायुः गणयोः नामकरणं खतमसंजातम। पाणिनिना वर्णानां समूहाहः कृताः। एकैकस्य वर्णस्य वर्णसमूहस्य नाम, नाम, एक नाम प्रत्याहारः। एते प्रत्याहाराः आयोजिताः। स आयोजिताः सन्ति। सूत्रद्वारा सूत्राणां सा सामूहिकं नाम सूत्रनाम नाम अपि अस्ति माहेश्वरसूत्रानि इति माहेश्वरसूत्रानि आ ई उ माहेश्वरानि सूत्रानि माहेश्वरानि सूत्रानि आ ई ऊ ऋ रु ए ओ औ ऐ औ हयवारा अ आ ई उण इति वर्तते आ ई उण रेलरिक रुल् रुक् एओ एओ ए औच हयवारट ऐ औच ऐ औच हयवारट लण् न्यामाङ्नं न्यामाङ्ननं जबग जभै जभै गडादश गढदश जबगडादश क कपाचटा कपाचटा चटातव कपाई इति अस्तु स्मृत अग्रे येभिः सूत्रैः अवगम्यते खल् वर्णाः के इति。इमानि सूत्राणि अधिकृत्य कथम् प्रत्याहारः न्यायन्ते इति अन्यत, अन्यत अस्ति, अस्ति अतः न बुद्धम् चेत् तर्हि माहेश्वर सूत्राणि इति करपत्रम् अवलोकताम् तर्हि प्रायः अस्माभिः अवगम्यते खलु एतत् सर्वं जानीमः पुनः स्मरणमस्ति खलु एतत् सर्वं वयं जानीमः सविसाची महोदय अवगच्छति वा प्रत्याहाराः अत्र खर अपि च हस् खरी के के वर्णाः सन्ति इति अनेन वयम् अवगन्तुं शक्नुमः खलु खरि खठ था झटतौ वा इत्यस्य लोपः भवति अतः ख प झठ चटथा क इति खर् अतः यदि वयं खरी के के सन्ति इति जानीमः तर्हि अस्माकं समस्या न भवति यतो हि खरि नास्ति चेत् हसि अस्ति वदामि सू, भाट्टसूत्राणि सोपान, सोपानानि प्रथमं सोपानं विसर्गस्य अत्र किमस्ति क्षम्यताम् अत्र किमस्ति यत् पाणिनिव्यवस्था अत्र सारांशः दत्तः अस्ति यतोहि बहूनि सूत्राणि सन्ति अत्र अत्यन्तं सुलभम् अस्ति अतः अत्र भाटसूत्राणि इति वदामः नाम तस्य तु सूत्राणि न सन्ति अयम् अस्माकं मित्रमस्ति भारतदेशे अस्माकं मित्रम् इदानीम् इदानीन्तन मित्रम् पुरातन न किमपि न संस्कृतभारत्याः मित्रम् अस्तु अस्माकं सन्धिपुस्तकम् अस्ति लेखकः कः महाबलेश्वरभट्टः अस्माकं समासपुस्तकमपि अस्ति कारकपुस्तकमपि अस्ति एतादृशं पुस्तकं तस्य लेखकः अस्तु अग्रे प्रथमं सोपानं विसर्गस्य पुरतः कः वर्णः विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति यदि प्रथमं सोपानम् अस्ति अस्माकं मनसि पञ्च सोपानानि सन्ति चेत् सुलभं भवति अतः सावधानं पठामः अत्र पञ्चमं सोपानम् एवं था था। तो था। तो था। तो था। स इत्येषु सकारेषु परेषु सकारः आयाति तदा सकार शकार चुत्व सन्धिः इत्यनेन अवगतं खलु विसर्गः अस्ति पूर्वम् अनन्तरं चकारः क्षम्यताम् वा तत्र सकारः भवति अनन्तरं चकार छकारः चेत् सकारः भवति सकारः आगच्छति ठकारः ठकारः षकारः इत्येषु वर्णेषु परेषु षकारः आयाति तदा मुके मुखे चकारस्थन तोल्यम अस्थ आया तथा ठकार श अस्ति शकारस्य स्थाने आयाति इति क अस्थ वर्सर्गति परयोः विसर्गः यथावत् तिष्ठति परिवर्तनं न भवति कख अथवा पफ परे सन्ति चेत् परिवर्तनं न भवति तर्हि एतत् सर्वं दृष्ट्वा अवगत्य अस्माकं सूत्रं किम् प्रथमं भाटसूत्रं विसर्जनीयस्य सह खरि खे तो गः एतत् सर्वम् इदानीम् अस्माकं निपुणता अस्ति वयं जानीमः षष्टि विभक्तेः अर्थः कः प्रथमा विभक्तेः अर्थः कः पञ्चमे अस्ति चेत् सप्तमे अस्ति चेत् एतत् सर्वं वयं जानीमः बहु अभ्यासः जातः अतः वयं सम्यक्तया अवगन्तुं शक्नुमः अग्रे वद विसर्जनीय विसर्जनीयस्य इत्युक्ते विसर्गस्य विसर्जनीय परिनीय भाषायाम तत्र विसर्गः इत्युक्ते विसर्गनीयः ह विर्जनीयस्य षष्ठ्यन्तं सः प्रथमान्तं खरि सप्तम्यन्तं सप्तम्यन्तं ख ख फ फे सप्तम्यन्तं इति विसर्गनीयः इत्युक्ते विसर्गः सः इत्युक्ते सकारः ख ख फ फे इति कश्च खश्च पश्च खश्च एषां वर्णानां समाहारः ख ख फुम् तस्मिन् ख ख फे समाहारद्वन्द्वसमासः समासविषये वयं न जानीमः तावता किन्तु पदस्य सम, पदानां समूहः अत्र सम, द्वन्द्वसमासः इति वदामः इत्यस्य का विभक्तिः इत्युक्ते किम् सः का विभक्तौ अस्ति तत्र लिखितमस्ति सः विसर्जनीयस्य अत्र लिखितमस्ति विसर्जनीयस्य षष्ठ्यन्तं सः सः का विभक्तिः प्रथमा विभक्तिः विसर्जनीयस्य षष्ट्यन्तम् इत्युक्ते षष्टि विभक्तिः सः प्रथमान्तः इत्युक्ते किम् आदेशः विसर्जनीयः इत्युक्ते किं विसर्गस्य स्थाने सकारः आगच्छति अनन्तरं किमस्ति सप्तम सप्तमी दृहति इत्युक्ते द्वितीयवर्णः अथवा पूर्वकारे हा द्वितीयवर्णः नाम तस्मात् पूर्वकार्यं भवति तर्हि नाम खर् अनन्तरम् अस्ति चेत् अथवा ख खे सप्तम् खर् प्रत्याहारः अनन्तरमस्ति चेत् विसर्गस्य स्थाने सकारः सका सका किन्तु कख पफ इति वर्णाः खरि सन्ति अपि खरि सन्ति किन्तु किं सूत्रं किं भवतु कफपफे तु विसर्गः विसर्गः एव नाम परिवर्तनं न भवति तर्हि खर् अनन्तरम् अस्ति चेत् विसर्गस्य स्थाने सकारः किन्तु क ख अस्ति पा चेत् विसर्गः तिष्ठति एव अस्तु स्पष्टमस्ति वा अस्तु तर्हि सवि साची महोदय अग्रे पाठतु कृपया व्याकरणसूत्रेषु व्याकरणं विभक्तिः इत्युक्ते स्थाने प्रथमाविभक्ति इत्युक्ते आगच्छति अथवा आदेशः आगमः वा सप्तमीविभक्ति इत्युक्ते पूर्वकार्यम् पञ्चमीविभक्ति इत्युक्ते परकार्यम् अन्यकार्यम् इत्युक्ते विसर्गस्य स्थाने तकारादयः वर्णादेशाः तर्हि शूत्रस्य तारांशः एव विसर्गात् अग्रे खर् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने तकारः परन्तु विसर्गात् अग्रे हाफ इति वर्णाः सन्ति चेत् तर्हि विसर्गः एव तिष्ठति हा अस्तु तर्हि पश्यामः अत्र अग्रे, अग्रे अभ्यासः अभ्यासः रामः तिष्ठति रामः तिष्ठति किमर्थं तथा वदतु किमर्थम् इति विसर्गस्य पुरतः चकारः अस्ति तर्हि अत्र कखापः नास्ति तर्हि आदेशः भवति शकारः कखा पापः नास्ति किन्तु अस्ति किम् खर् सत्यं सत्यं समीचीनं समीचीनं तत्र खर् इति प्रत्याहारः खर् प्रत्याहारे तकारः अन्तर्भूतः अस्ति अपि कफ फ इत्येषु नास्ति अतः विसर्गस्य स्थाने अग्रे रामः चिन्तयति किमभवत् अत्र अस्ति चकारः अस्ति तर्हि न तर्हि तालव्यचकारः आगच्छति इति नास्ति सूत्रं सु, सु, किं वदति सूत्रं वदति विसर्जनीयस्य सः खरि खफ फे टु विसर्गः तरी चकारः खरी अस्ति वा चकारः खरी अस्ति तर्हि आदेशः कः कत् सत्यं तत् सत्यं निरञ्जनमहोदय कृपया वदतु सकारः आगच्छति किन्तु सन्देहे तर्हि प्रथमतया रामश्चिन्तयति इति दन्त्य रामश्चिन्तयति अनन्तरम् यदा सकारचकारयोः संयोगः भवति तस्यां दशयां चकारस्य प्रभावेन स्ट्युत सन्धिः भवति अतः सकारस्य स्थाने शकारः भवति स्पष्टमस्ति रघु रघु अस्तु अग्रे महोदय महोदय रामःति खा रामः खादति भिन्नः न भवति अत्र सकारः न आगच्छति किमर्थम् इति विसर्गस्य पुरतः खरि अस्ति परन्तु अत्र ख अस्ति ख अस्ति चेत् तर्हि विसर्गः एव भवति तर्हि रामः खादति हा हा सत्यं रा सत्यमस्ति विसर्गस्य अग्रे खरि अस्ति इति न वदामः खर् अस्ति खर् अस्ति प्रथमपि वक्तव्यम् यथा बालकः अस्ति बालकः अस्ति वयं बालके अस्ति इति न वदामः बालकः अस्ति खरि नाम सप्तमी अग्रे रामः रामः किमर्थम् अग्रे खर् अस्ति परन्तु अस्ति तर्हि तत्र विसर्गः एव भवति रामः पतति सत्यम् अस्तु तर्हि रघुमहोदय अग्रे पठित सर्वप्रथमं द्रष्टव्यं यत् विसर्गस्य पुरतः खर् वर्णः अस्ति न वा अस्ति <laughs> सथ, चेत् <laughs> <laughs> स्थाने प्रथमम् सोपानम् तर्हि अत्र अत्र पठतु रामः खादति रामः खादति राम न अत्र किं वदामि अत्र किमस्ति जिह्वामूलीयः अपि च तत्र वयं दृष्टवन्तः यत् कखपफे तु विसर्गः एव नाम यदि विसर्गः अस्ति अनन्तरं ककारः खकारः फकारः फकारः वा अस्ति तर्हि साधारणतया खर्शः चेत् किम् विसर्गः तिष्ठति एव किन्तु विकल्पेन अत्र वदामः तत्र किं भवति यत् रामः पटति तत्र अर्धविसर्गः <coughs> रामः खादति रामः पठति इति विकल्पेन भवति नो चेत् रामः खादति रामः पठति इति प्रथमं चिह्नमस्ति साधारणतया वयं केवलं त्यजामः नाम विसर्गः तिष्ठति एव किन्तु एवमस्ति जिफा मूल्यः अपि च उपध्मानीयः अस्तु द्वितीयं जनभगिनी अग्रे पठतु नू, नूतनम् उदाहरणं हरिः खादति हरी हरी आ, अत्र हरिः खादति इत्यस्मिन् वृत्तान् वृत्तान्ते केम कार्यं भवति वृत्तान्त इति पूर्वं पूर्वम् इकारः अस्ति इति कारणतः क्रम भिन्नः स्यात् इति मा चिन्तयतु प्रथम प्रथ प्रथमं सोपानम् आरोढव्यम् गस्या कहा अस्ति आ, अस, अस्ति, आ, खाका रहा, खरी, आ, खर अस्ति किला सर्ग से पुरा अस्थरी खर्गणे अस्ल तफे खखे इत्यनेन विसर्गः तिष्ठति इति भवती उक्तवती खलु तिष्ठति अग्रे हरि हरिः खादति हरिः खादति तथैव हरिः चिन्तयति वि, विसर्जनीयस्य सह खरि इत्यनेन हरिश्चिन्तयति यदा खर्वर्णे परे अस्ति तदा पूर्वं किम् अस्ति इति न द्रष्टव्यम् प्रथमे सोपाने खर् वर्णः विसर्गस्य पुरतः अस्ति चेत् तर्हि विसर्गात् किम् अस्ति इति मा अहं किं वक्तुम् इष्टवान् यत् बहवः जनाः चिन्तयन्ति यत् अग्रे गत्वा वयं द्रष्ट्यामः यत् इकारः पूर्वमस्ति चेत् रेफः oh. भवति नाम बाल्यकालात् दृष्टवन्तः इकारः एवम् अभ्यासः जातः अतः ईकारं दृष्ट्वा बहवः चिन्तयन्ति यत् ईकारः अस्ति चेत् पूर्वं तर्हि स्यात् किन्तु अस्माकं कार्यं य वस्तुतः वस्तुतः भवति यत् उक्तवती तत् सत्यमेव नाम अस्माकं प्रथमं स्वपानम् एव द्रष्टव्यमस्ति तावदेव अस्म अहं अवधानं दातुम् यत् अत्र यद्यपि इकारः तस्मात् पूर्वमस्ति किन्तु तत्र इदानीं न द्रष्टव्यमेव अनन्तरम् अस्माकं खर् प्रत्याहारः अस्ति तत्र तत्रैव गन्तव्यमस्ति अतः यत् भवत्या उक्तं तत् सत्यमेव हरिः खादति यथा अपि च हरिः चिन्तयति हा इति अस्ति द्वितीयम् अत्र विसर्गस्य नास्ति, नास्ति पूर्वं किम् अस्ति इति अत्र इकारह इकारह इच्छ प्रत्याहारे अस्ति इचि विहाय सर्वे स्वराः तर्हि स्थाने रेफः भवति इति तर्हि सर्वेश्वराः तर्हि अत्र किच् वर्णः अस्ति चेत् तर्हि भवति रेफः प्रथमान्तम् अखरि सप्तम्यन्तम् इति सारामशः इच्छ वर्णात् अग्रे यः विसर्गः अस्ति तस्य स्थाने रेपः भवति विसर्गात् अग्रे अखर वर्णः अस्ति चेत् अस्ति चेत् हिच इत्युक्तौ अकारं आकारं वज्यित्वा वर्ज्यितः वर्जीद्वा। वर्जीद्वा। वर्जीद्वा। वर्जीद्वा। अकारं आकारं अकरी नाम अग्रे ना इति खर्वर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् इच्छ वर्णः hmm. hmm. सु, खर, अस्ति चेत् तर्हि विसर्गस्य स्थाने रूपः भवति इति द्वितीय सोपानम् चेत् सकारस्य आगमः केवलं ख ख, ख, ख, ख, ख, ख. Hmm. I, अस्ति चेत् सकारस्य आदेशः न भवति तर्हि किम् अस्ति तत् द्रष्टव्यं नास्ति सत्यं द्वितीय सोपाने <स्थिया> विसर्गस्य पूर्वम् इकारनं कदा गन्तव्यम् अस्ति कदा यदि विसर्गस्य अनन्तरम् अख अखर वर्णः अस्ति चेत् द्वितीय सोपानं अस्तु तर्हि नीताभगिनी सूत्रं किम् इचः इचः रेचः परस्य विसर्जनीयस्य तत्र का विभक्तिः ज्योषभगिनी इच्छः परस्य विसर्जनीयस्य का विभक्तिः षष्ठी सर्वत्र इच्छः परस्य विसर्जनीयस्य नाम कीदृशविसर्गः प्राक् यस्मात् पूर्वम् यच्चि के के वर्णाः स्वराः विसर्गात् प्राक् यचस्ति चेत् तस्य विसर्गस्य स्थाने किं भवति रेफः अत्र अखरि इत्युक्ते किम् किन्तु अखरि अखरि नाम वदतु वाक्यं वदतु अखरि इत्युक्ते अखरि सप्तमी इत्युक्ते पूर्वकार्य किन्तु अखरि विसर्गस्य अनन्तरं खर् नास्ति चेत् विसर्गस्य अग्रे खर् नास्ति चेत् तस्यां दशायां विसर्गात् प्राक् कः वर्णः अस्ति इति द्रष्टव्यम् तत्र कारः नास्ति चेत् तर्हि रेफः विसर्गः अस्ति अग्रे खर् नास्ति पूर्वम् अआ नास्ति तर्हि रेफः इति नियमः पूर्वम् इच्छस्ति केवलम् इकारः न यः कोऽपि स्वरः यः अ आ, आ न hmm. स्यात् hmm. खलु नाम अत्र अनन्तरं घर् अस्ति चेत् विसर्गस्य पूर्वं किम् अस्ति तत् द्रष्टव्यं नास्ति आगच्छति वा हा विसर्गः तर्हि विसर्गस्य अनन्तरम् अस्माकं प्रथमं सोपानम् अस्ति किम् विसर्गस्य द्रष्टव्यम् खर् अस्ति चेत् कार्यं समाप्तम् सकारः एव अनन्तरं खर् नास्ति चेत् विसर्गात् प्राक् द्रष्टव्यमस्ति द्रष्टव्यमस्ति इच्छति चेत् इच्छा चेत् इच्छा चेत् रेपः रेफः भवति विसर्गस्य स्थाने के के वर्णः सन्ति अकारः आकारः विहाय सर्वे स्वराः अस्तु वदतु अभ्यासं करोतु अभ्यासः रामैः रामैर्धाव्यते अस्तु चिन्तनं वदतु चिन्तनं चिन्तनं सर्वप्र प्रथमं विसर्गात् अग्रे खर् वर्णः अस्ति वा नास्ति किल यतः धकारः हसि अस्ति न तु खरीतं सपान धकारः पत्याहारे अस्ति हसि अस्ति खरितु नास्ति तर्हि सोपानम गंतव्यम अस्ति एकार द्वितयसोप गसर्गा वर्ण अस्थ किल सच ऐसा आत अभिन्नाः सर्वे स्वराः इच्छ वर्णाः सन्ति अतः विसर्गस्य स्थाने रेफः आदेशः भवति रामैः धाव्यते रामैते रामैर्धा विसर्गस्य पुरतः कर् वर्णः अस्ति वा न किल अकारः स्वरः अस्ति सर्वे कर् वर्णाः व्यञ्जनानि एव तर्हि अभावे द्वितीयसोपानम् अतः द्वितीयसोपानं गन्तव्यम् विसर्गात् प्रात यः ओकारः स इच इच् अकारभिन्नत्वात् इच् अस्ति किल तर्हि द्वितीयसोपानस्य अनुगुणम् स्थाने रेपः क्रियताम् गुरोः पश्यामः अत्र गुरोः अनुग्रहः नीता भगिनी वदतु किमर्थं चिन्तनं करोतु गुरोः अनुग्रहः सोपानम् अनन्तरं खर् नास्ति अतः द्वितीयसोपानं गन्तव्यं द्वितीयसोपाने विसर्गस्य प्राक् इच् अस्ति वा इति द्रष्टव्यम् उकारः अस्ति अनन्तरम् इचि अस्ति अस्ति अतः रेत्रम् इचह परस्य विसर्जनीयस्य एवञ्च एतावता सोपानद्वयम् अस्माभिः परिशीलितम् यदा कदापि विसर्गसन्धेः अवसरः उदेति तदा आरोडव्यं नाम सर्वप्रथमम् नामग्रे खर्वर्णः अस्ति उत्तरे प्राप्ते विसर्ग... विसर्गस्थाने सकारादेशः अपेक्षितः तत् अकृत्वा साक्षात् द्वितीयसोपानम् गच्छामश्चेत् तर्हि हरिः चिन्तयति दृष्ट्वा हरिश्चिन्तयति इति अशुद्धम् फलम् प्राप्स्यामः सम्यक् नास्ति किमर्थम् अस्ति इच्छति इच्छस्ति किन्तु किन्तु करी अस्ति चकारः करि प्रथमसोपानम् एव गन्तव्यं द्वितीयसोपानस्य आवश्यकम् नास्ति नियमः अग्रे खरसि चेत् समाप्तम् द्वितीय सोपानम् नाम बहवः जनाः एवं कुर्वन्ति इकारम् दृष्ट्वा इच्छस्ति खरस्ति वा इति न अग्रे अत्र विसर्गः रेपः न करणीयः यतः प्रथमसोपाने कार्यं समाप्तम् अतः प्रति न प्रथमसोपाने यदा कार्यं न भवति तदा एव द्वितीयसोपानम् आरोडव्यं इति क्रमः अतः आदौ प्रथमसोपानम् अवश्यं द्रष्टव्यम् द्वितीयसोपानम् प्रति धावनीयम् इति प्रथमसोपाने कार्यं नास्ति चेत् द्वितीयसोपाने विसर्गात् प्राक् इच्छ वर्ण प्राप्यते चेत् विसर्गस्थाने रेपादेशः भवति इति क्रमः तर्हि रघुवीर महोदय अत्र हरिः चिन्तयति हरी हरिः चिन्तयति प्रथमस्वपानमेव तिष्ठति तत्र किमर्थम् एच् अस्ति खलु यच् अस्ति कर्मणः कुत्र अस्ति चिन्तयति चकारः खरि अस्ति अतः अतः प्रथमं स्वपानम् एव तिष्ठति एव तिष्ठतिकारः अनन्तरं सन्ति समीचीनमस्ति अग्रे गच्छामः अधुना नूतन उदाहरणं न बालाः तिष्ठन्ति अस्तु वदतु बालाः तिष्ठन्ति तत्र किमस्ति अग्रे खर् अस्ति वा बालाः बालाः तिष्ठन्ति त त अस्ति अतः प्रथमसोपानमेव उच्चारं भवति बाला तिष्ठन्ति किं भवति न न अग्निवशः प्रथमसूत्रां नाम किं द्वयोसु भगि प्रथमसूत्राः तर्हि योजयतु बालस् तिष्ठन्ति बालाः तिष्ठन्ति तत्र बालाः तिष्ठति सायं करोतु बालास्तिष्ठति बालास्तिष्ठति विसर्गस्य स्थाने सकारः खलु तर्हि विसर्गात् प्राक् एवं नकार क्रमः कथाश्च विसर्गस्य आम खिला अतः कि सकारादेशो परन्तु बालाः अस्ति चेत् अपि च विसर्गस्य पुरतः खर्वर्णः नास्ति चेत् तर्हि किम् भवति इच वा नास्ति पूर्वं अतः विसर्गा अस्ति तत्र सोपानं गन्तव्यं तर्हि विसर्गस्य पूर्वम् इच्छा नास्ति आकारः आकारः अथवा आकारः अस्ति चेत् अनन्तरं खरी विसर्गस्य अनन्तरं खरि अस्ति चेत् तद् द्वितीयसु विसर्गस्य पूर्वम् अकारः अथवा आकारः इच्छि नास्ति चेत् विसर्गस्य अनन्तरम् अखरि अस्ति चेत् तदा द्वितीयसु अखर् अखर् हा न सत्यम् तर्हि अस्माकम् आहत्य अग्रे खर् अस्ति चेत् कार्यं समाप्तं प्रथम सोपानमेव अनन्तरम् ईर्ष अस्ति चेत् इच्छ अस्ति चेत् कार्यं समाप्तम् इदानीं खर् नास्ति अपि च पूर्वं किचपि नास्ति नास्ति प्रथमम् सोपानम् खर् अनन्तरम् द्वितीयसोपानम् पूर्वम् इच् इदानीम् तृतीयसोपानम् अग्रे खर् अपि नास्ति पूर्वम् इच्छति इच्छपि नास्ति इदानीम् किम् तृतीयसोपानम् विसर्गात् पूर्वम् आकारः अस्ति वा बालाः धावन्ति अत्र विसर्गस्य पुरतः खर् वर्णः नास्ति अस्मिन् नामना अनेन योजयामः चेत् तर्हि एव व्यक्तः भवति यथा एवञ्च संक्षिप्तत्वेन क्षिप्तत्वेन नो चेत् पाणिनीयव्याकरणे इत्येव वदामश्चेत् तर्हि सः अकारः अष्टादशाम् वर्णानाम् प्रतिनिधिः भवति ह्रस्वः अकारः दीर्घः एषु अष्टादशस्सु कः वर्णः इष्टः इति स्पष्टीकरणार्थम् इतोऽपि वक्तव्यम् भवति अतः पद्धतेः Hmm. तस्य उपयोगं किमर्थं पाणिनिः करोति इति तकारः परे अस्ति चेत् अत्र तस्य अर्थः अस्ति यत् तस्मात् प्राक् यः वर्णः अस्ति स एव वर्णः सः एव वर्णः अस्ति न तु अन्यवर्णः तर्हि दृष्टवन्तः सन्धौ वयं दृष्टवन्तः दृष्टवन्तः अत्र अदेगुणः अत्र गुणसंज्ञायाः नामकरणम् अदेगुणः अत्र अत् इत्युक्ते केवलं ह्रस्वाकारः यतोहि अकारस्य अनन्तरं तकारः अस्ति अतः आकारः न अन्तर्भूतः अस्ति यदि यतोहि पाणिनि नी, पाणिनिः संक्षिप्तरूपेण लघुरूपेण वक्तुम् इच्छति सः ह्रस्व अकारं वक्तुं न इच्छति सूत्रं दीर्घं भविष्यति सूत्रं दीर्घं भविष्यति अतः लघु अकारः ह्रस्व अकारः इति वक्तुम् अतिथि वदति <laughs> पूर्वं अस्तिवा अस्तिवा गुणसन् अस्ति अस्ति इव संधि संधि विसर्गस्य कर नास्ति विसर्गे कर्ण ने विसर्गा अस्ती चेत, आत, अस्ति चेत तरही, विसर्गस्य लोप ब आतः षष्ट्यन्तम् परस्य षष्ट्यन्तम् षष्ट्यन्तम् लोपः प्रथमान्तम् अकरि सप्तम्यन्तम् इति सारांशः परे कर्वर्णः नास्ति चेत् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति वा hmm. hmm. अग्रे खर् नास्ति घर् hmm. खर नास्ति चेत् तत्र प्रथमसोपानम् त्यजाम अग्रे hmm. अनन्तरं प्राक् तत्र इच् नास्ति आकारः अस्ति अतः लोपः भवति सकारः न भवति रेफः न भवति लोपः भवति अस्तु अग्रे जोसा भगिनी बालाः इच्छन्ति विसर्गा अग्रे वर्णी विसर्गा विसर्ग लोपः क्रीयता बालाः इच्छन्ति समीचीनं वा तर्हि अत्र यदि कोऽपि वदति अथवा लिखति बाला इच्छन्ति तर्हि चिन्तनीयमस्ति अहं पूर्वं सर्वदा चिन्तयामि स्म भो दोषः अस्ति विसर्गं बहुवचने अस्ति विसर्गः नास्ति लेखनदोषः स्यात् किन्तु दोषः नास्ति तत्र विसर्गः सन्धिः अस्ति लोपः Hmm. अत्र कश्चन प्रश्नः उदे उदेति यत् बाला इच्छन्ति इत्यस्मिन् गुणसन्धेः प्रसक्तिः अस्ति वा आम् गुणसन्धि स्यात् आ, आ, आ, स्यात, आ प्लस् इ ए, ए इति परंतु पाणीने अष्टाध्याय एका विशिष्ट व्या व्यवस्था अस् अस्ुणस विधायक सूत्र चि चिंत ये चिन, इध मपि विसर्गः अस्ति अस्ति वयं दृष्टवन्तः जानीमः इदानीं वयं सर्वं जानीमः पूर्वत्र सिद्धमिति सूत्रमस्ति यतोहि इदं सूत्रं इदं सूत्रं गुणसन्धे सूत्रस्य अनन्तरम् आगच्छति अनन्तरमस्ति नाम ये एतत् <laughs> लोपः त्रिपाद्यामस्ति इति मुख्यांशः त्रिपाद्याम् अस्ति इति कारणः नेहे सपाद्याम् सपाद्याम् अस्ति अतः त्रिपाद्याम् अस्ति इति कारणतः पश्यति चिन्तयति यत् इदानीमपि विसर्गः अस्ति अतः कार्यं नास्ति इति नापस्टि चिन्तयति मम कार्यम् अत्र न भवति इति बाल इच्छति इत्यस्मिन् विसर्गः लोपः जातः इति वयं जानीमः किन्तु गुणसन्धिः आगत्य चिन्तयति यत् अहु विसर्गः अधुना अपि अस्ति अतः अनेन Uh, कारणेन गुणसन्धिः अतः नव प्रवर्तते अष्ट अष्टाध्यायी भागद्वये विभक्ता पाणिपाणिना सपाधि त्रिपाधि इति यत् uh, किमपि कार्यं साधितम् तत्म न दृश्य दीर्घस गुणसंधि वृद्धि साध्यन्ते सपाद्याम् अपि विस, च विसर्गस्य लोपः साध्यते त्रिपाद्याम् अतः स्वरसन्धयः वि विसर् विसर्गलोपः न जातः इति चिन, चिन्तयन्तः स्वरस्य का, कार्यं न अधुना कु, कीदृशं विसर्गसन्धिकार्यम् अवशिष्टं प्रथमसोपाने विसर्गात् अग्रे किम् इति विसर्गात् प्राक् इक् तृतीयसोपाने विसर्गात् प्राक् अस्ति चेत् इति दृष्टम् अधुना प्राक्ति चेत् किम् भवति इति द्रष्टव्यम् अत्र भागद्वयम् अस्ति यतः द्विसर्गात् प्राक् अच् अस्ति चेत् तर्हि अधुना पुनः अग्रे अवलोकनीयम् अग्रे अथ वा अस्ति चेत् एका गतिः अग्रे आत् इच वा चेत् अपरा इदानीं पूर्वं विसर्गात् प्राक् हरस्व अकारः नाम पूर्वम् अत् अस्ति अग्रे पुनः अग्रे इदानीं द्रष्टव्यम् अस्ति नाम अग्रे इच् वा इच् न उक्तं अग्रे हस् अग्रे हश् अथ् अथ वा इति एकः भागः अग्रे इच् आत् इति द्वितीयभागः भागद्वयमस्ति पूर्वं अनन्तरम् अग्र अकरः अस्ति अतः भागद्वयं भवति भागद्वयं भवति हश् अत् अथवा आत् इच्छ इति भागद्वयमस्ति तृतीयस्य पालनं तथा नासीत् बालाः इच्छन्ति बालः इच्छन्ति बालाः धावन्ति आत् पूर्वम् प्रथमे सोपानं चतुर्थतः सोपानं विसर्गात् पूर्वं अत् ह्रस्व अकारः अस्ति वा बालः दावति इतर्गत् <coughs> प्राक् अत् अस्ति चेत् तर्हि मार्गद्वयं भवति इदं चतुर्थं सोपानं प्रथमः मार्गः अस्ति विसर्गात् प्राक् अत् अस्ति बालः किम् पूर्वम् अत् अनन्तरम् अत् अस्यां दशायां विसर्गस्य स्थाने उकारः इदानीं गुणसन्धिः भवति बाल इत्यस्य अकारः प्लस् उकारः अ प्लस् उ इत्युक्ते इदानीं बालो प्लस् अस्ति प्लस पूर्वरूपसन्धिं वयं दृष्टवन्तः पूर्वम् बालो प्लस अस्ति साधारणतया ओकारः अस्ति अनन्तरम् अकारः किं भवति ओकारः अनन्तरम् अकारः तत्र ज्ञातवान् सन्धिः तत्र एचयि वायावः इति भवति स्म किन्तु तस्य अपवादः अत्र पूर्वरूपसन्धिः तत्र ओकारः पदान्ते अस्ति अथवा एकारः पदान्ते अस्ति चेत् तत्र अकारः नाम लोप इति चिन्तयतु अतः अवग्रहः आगच्छति किन्तु अत्र <आ>, वि, विसर्ग <laughs> संदेहे उकारस्य आदेशः एव भवति वा अस्मिन् सन्दर्भे तदनन्तरं किमर्थं गुणसन्धिः किमर्थं तत् तस्य कार्य परिस्थिति हां उत्तर मागरे अस्ति हं हेड विसर्गः प्राक् अत् अस्ति विसर्गस्य पुरतः हश कर भिन्नः हल वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने पुकारः भवति बालः धावति बालह प्लस उ प्लस धावती गुनसंदी ही बालो धावती पदांते ओकारह अस्थिकेथ अपिच अग्रिम पदस्य प्रतम वर्नह अकारह अस्थिकेथ तरही ओकार, ओकार कारयोह ओकार, कारयो स्थाने ओकारदेश भवती इतावत असमा भिहिकर तुमेटी अभगतं क्यम उकारः भवति उस्य उकार अनन्तरं गुणसन्धिः कृत्वा उकारः हा भवति तर्हि <coughs> एवं भवति यत्र हश् अथवा अथ् अनन्तरमन्तरम् अस्ति अस्मिन् भागम् अस्तु अग्रे पठतु महोदय तृतीयसोपानं द्वितीयसोपाने <coughs> द्वे पदानि पल, योजनम् अस्ति किल परन्तु अत्र द्वितीयसु पर, द्वितीयसुपाने रामैः धाव्यते अस्ति चेत् रा, रामैर्धाव्यते एकपदमेव भवति किल परन्तु अत्र द्वे बालैः धाव्यते बालैः धाव्यते तत्र बालैः धाव्यते अथवा बालैर्धाव्यते तत्र पदद्वयमस्ति एव वयं लिखितवन्तः संयोजयित्वा संयोजयित्वा संयोज्य वयं लिखितवन्तः किन्तु तत्र बालेर् इति एकं पदं धाव्यते इति द्वितीयं पदं केवलं मिलित्वा वयं लिखितवन्तः अत्र कुत्र अस्ति अत्र बालोधावति अत्रापि वयं लेखितुं शक्नुमः बालोधावति वयं एकं मिलित्वा लिखितुं शक्नुमः तत्र केवं शैली अस्ति शैली अस्ति यत्र रेफा अस्ति तत्र पृथक्तया वयं लिखामश्चेत् तत्र सम्यक् न दृश्यते वस्तुतः मिलित्वा लेखनीयमस्ति अत्रापि बालो बालो धावति मिलित्वा लेखनीयमस्ति केवलं दर्शयितुं कुत्रचित् यत्रापि सर्गसन्धिः अस्ति कुत्रचित् वयम् एवं कुर्मः किन्तु मिलित्वा लेखनीयमस्ति किन्तु पदद्वयमस्ति उभयत्र तत्रापि पदद्वयमस्ति अत्रापि पदद्वयमस्ति चतुर्थं भाटसूत्रम् अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् अतः षष्ट्यन्तम् परस्य षष्ट्यन्तम् सारांशः विसर्गात् पूर्वम् अत् अस्ति चेत् पुरतः अत् हश् वा अस्ति चेत् तर्हि स्थाने नाम खर हल हा इती यता हा कुणसंदे, कुणसंदे ही बालो हसति स्थाने उकार से आगमन स्वस्य अवसरम् दृष्ट्वा कार्यम् करोति एव पदस्य मध्ये सन्धिः नित्यम् अतः अत्र सलिही न भविष्यति यथा तर्हि न स्मर्यतां यत् अत्र वाट्यसूत्राणि वयं पश्यन्तः स्मः तत्र पाणिनीय पूर्णतया पूर, पूर पाणिनीयव्यवस्थां वयं न दृष्टवन्तः अत्र सूत्रसंख्यां सुत्र वयं न दृष्टवन्तः तावदेव विम, अवगन्तव्यमस्ति यत् उकारस्य सूत्रं येन उकारः आगच्छति तत् त्रिपाद्यां नास्ति <coughs> अतः पूर्वत्र सिद्धं न भवति प्राक् अत् अस्ति अपि च विसर्गस्य पुरतः खर् वर्णः चेत् तर्हि प्रथमसोपानम् विसर्गस्य पुरतः अत् हश् वा अस्ति चेत् तर्हि चतुर्थसोपानम् इति सोपानद्वयेन वयम् विसर्गस्य का गतिः इति जानीमः अधुना किम् अवशिष्टम् विसर्गात् प्राक् अत् अस्ति विसर्गस्य पुरतः आत् इच् वा चेत् तर्हि पञ्चमं सोपानं द्रष्टव्यम् इदं पञ्चमं सोपानम् विसर्गात् प्राक् अत् अस्ति चेत् परे खर् नास्ति चेत् इत्यस्य द्वितीय मार्गः पञ्चमं सोपानम् विसर्गस्य पुरतः खर् प्रथमसोपानम् पुरतः अत् हश् चतुर्थ सोपानम् इदानीं पूर्वम् अस्ति अनन्तरं इष् इच् इच् अस्ति अथवाच् अथवा आत् हा क्षम्यतात् पूर्वम् अस्ति हत् हश् हत् हश् एक एक मार्ग मार्गः इच् आत् इच् आत् अन्य मार्गः तर्हि पूर्वम् अकारः अस्ति ह्रस्व अकारः अत् अनन्तरं खर् इति एकः भागः द्वितीयभागः अस्ति हश् अत् तृतीयभागः अस्ति आत् इच् खर् हश् अत् आत् इच् इति भागत्रयमस्ति पूर्वम् अकारः स्वकारः अस्ति चेत् नाम अग्रे खर् अस्ति चेत् खर् अग्रे इदानीं पूर्वम् अत् अस्ति किन्तु अनन्तरं खर् नास्ति चेत् तत्र विभागद्वयमस्ति हश् अत् अथवा आत् इच् इदानीम् आत् इच् अस्ति चेत् किं भवति इति पश्यामः विसर्गात् पूर्वम् अत् अस्ति चेत् अग्रे वा अस्ति वा बालः इच्छति प्राक् अत् अस्ति अपि च विसर्गस्य पुरतः आत् वा इच् वा अस्ति चेत् तर्हि विसर्गस्य लोपः भवति इत्युक, इत्युक्तौ, इत्युक्तौ।, इत्युक्तौ विसर, विसर्गात् प्रा, प्राक् ह्रस् ह्रस्वः अपि च विसर्गस्य पुरतः दीर्घः अन्ये कोऽपि स्वरश्च ह्रस्वम् हर, अकारः विहाय वा तर्हि विसर्गस्य लोपः भवति पंचमं भाठ सूत्रम अतह अतह परस्य आति इचिच अतः विसर्जनीयपीचिच अतः्यसर्जनीय षष्ट्यन्तम् आचि सप्तम्यन्तं लोपः प्रत प्रथमान्त hmm. आच इत्युक्तौ आच् इच् पाणिनी पाणिनिः एवं दीर्घ स्वरम् स्वीकृ स्वीकृत्य प्र, प्रत्याहारं न करोति पाणिनिः आचि व्या व्य, व्यक्तिकर्तुम् इच्छेत तर्हि आति अचि च इति लेख ले लिखेत् पाणि क्रमः अनुस अनुसरणीयः अस्ति चेत् एवं आ, व, वत, वत, वक्तव्यं। व वक्तव्यं भवति किन्तु अयं भाटकक्रमः क्रमः पाणिनीयक्रमः ना इति दर्शयितुम् अयं विलक्ष विलक्षणः प्रत्याहारः कृतः hmm. तर्हि किमस्ति अत्र यत् प्रत्याहारः सामान्यतया केवलम् अइऊन् इत्यादिकम् अस्ति नाम प्रत्याहारे तत्र यत्र प्रत्याहाराः हा सूचिताः सन्ति अत्र ऐ ऊच् अत्र दीर्घाकारः नास्ति दीर्घीकारः नास्ति अतः आच् आज इति वक्तुमेव न शक्नुमः वस्तुतः पाणिनिक्रमे तत् आत् इच् इति वक्तुं वक्तुं शक्नुमः पाणि पाणिनीयक्रमे वक्तुं शक्नुमः तावदेव लिखितम् अस्ति किन्तु सः लघुत्वम् इच्छति स्म अतः आच् इति लिखितवान् तर्हि यत्र आचि लिखितम् अस्ति तत्र आति सारांशः पूर्वम् पुरतः आत् इच्छ् वा अस्ति चेत् तर्हि विसर्गस्य लोपः भवति बालः इच्छति बालः इच्छति अत्र पूर्वम् अत् अस्ति अनन्तरम् इच्छस्ति इच्छति अनन्तरं रामः आगच्छति अत्र किमस्ति रामः आगच्छति पूर्वम् अत् अनन्तरम् इच्छति तत्र इच्छि अस्ति अतः अकरि विसर्गात् पूर्वम् अत् अस्ति चेत् तर्हि इतोऽपि कार्यम् भवति यतोहि पुनः अग्रे द्रष्टव्यम् भवति इदम् ज्ञातुम् यत् विसर्गस्य पुरतः अत् अथवा इच् ृत्य <coughs> <coughs> खेतु विसर्गः प्रथमं सोपानम् अग्रे खर् अस्ति चेत् सकारादेशः भवति एव द्वितीयम् इचः परस्य विसर्जनीयस्य रेफः अखरि तर्हि खर् नास्ति चेत् अग्रे पूर्वम् इच्छसि चेत् रेप रेफः भवति अनन्तरं तृतीयसोपानमस्ति पूर्वम् आदर्खरि अखरि अघरि लोपः भवति सूत्रम् अस्ति आतः परस्य विसर्जनस्य लोपः अखरि इदानीं पूर्वम् अकारः अस्ति ह्रस्व अकारः अत् इदानीं विभागद्वयम् अस्ति तृतीयं सूत्रम् किं भवति चतुर्थं सूत्रं चतुर्थं सूत्रं किं भवति यत् अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम् अनन्तरम् अकारः अथवा हश् अस्ति चेत् उकारस्य उकारः उकारः भवति अनन्तरं गुडसनिः सर्वत्र भवति ओकारः नाम ओकारमिति चिन्तयतु उकारः न कुत्रापि दृश्यते यतोहि गुडसनिः भवति एव ओकारः ओकारः भवति अनन्तरम् अतः परस्य विसर्जने अस्य लोपः आचि नाम आकारः अथवा इच् तत्र लोपः लोपः लोपः स्थानद्वय भवति कुत्र लोपः भवति लोपः कुत्र भवति तृतीय सोपान तृतीय सोपानि किम् अस्ति पूर्वम् अथ् आत् अखरि अखरि आत् अखरि तत्र लोपः लोपः अनन्तरं पञ्चम सोपाने ह् अत् आत् आचि अचि इति अस्ति यदि पञ्चसपानानि सन्ति अत्यन्तं सुलभमस्ति पञ्चसपान यदि वयम् एतत् सर्वं जानीमः तर्हि न कापि असुविधा भवति न कापि समस्या भवति अस्तु नमस्कारः